श्रीमद्वाल्मीकेय रामायणे अरण्यकाण्डम् अथ प्रथमः सर्गः प्रविश्यतु महारण्यम् दण्डकारण्यमात्मवान् रामोदर्श दुर्धर्षस्तापसाश्रममण्डलम् कुशचीर परिक्षिप्तम् यथा प्रतीम् दुर्दर्शम् गगने सूर्यमण्डलम् शरण्यम् सर्वभूतानाम् सुसंवृष्टाजिरम् सदा मृगैर्बहुभिराकीर्णम् पक्षिसङ्घैः समावृतम् पूजितम् चोपनृत्तम् च नित्यमप्सरसाम् गणैः विशालैरग्निशरणैः सृग्भाण्डैरजनैः कुशैः समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् बलिहोमार्चितम् पुण्यम् ब्रह्मघोषनिनादितम् पुष्पैश्चान्यैः परिक्षिप्तम् पद्मिन्या च सपद्मया फलमूलाशनैर्दान्तैः शीरकृष्णाजिनाम्बरैः सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम् पुण्यैश्च नियताहारैः शोभितम् परमर्षिभिः तद्ब्रह्मभवनप्रख्यम् ब्रह्मघोषनिनादितम् ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् तद्दृष्ट्वा राघव श्रीमाम् स्तापसाश्रममण्डलम् अभ्यगच्छन् महातेजा विज्यं कृत्वा महद्धनुः दिव्यज्ञानोपपन्नास्ते रामम् दृष्ट्वा महर्षयः अभिजग्मुस्तदा प्रीता वैदेहीम् च यशस्विनीम् दृष्ट्वा वै धर्मचारिणम् लक्ष्मणम् चैव दृष्ट्वा तु वैदेहीम् मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णम् दृढव्रता रूपसंहननम् लक्ष्मीम् सौकुमार्यम् सुवेशता ददृशुर्विस्मिताकारा रामस्य वनवासिनः वैदेहीम् लक्ष्मणम् रामम् नेत्रैरनिमिषैरिव आश्चर्यभूताम् ददृशः सर्वे ते वनवासिनः अत्रैनम् हि महाभागाः सर्वभूतहिते रताः अतिथिम् पर्णशालायाम् राघवम् सन्निवेशयन् ततो रामस्य सत्कृत्य विधिना पावकोपमाः आजहृस्ते महाभागाः सलिलम् धर्मचारिणः मङ्गलानि प्रयुञ्जानामुदा परमया युताः मूलं पुष्पं फलं सर्वमाश्रमम् च महात्मनः निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् धर्मपालोजनस्यास्य शरण्यश्च महायशाः पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघवा राजा तस्माद्वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ते वयम् भवतारक्ष्य भवद्विषयवासिनः नगरस्थो वरस्थो वा त्वम् नो राजा जनेश्वरः न्यस्तदण्ड वयम् राजम् जितक्रोधा जितेन्द्रियाः रक्षणीयास्त्वया शश्वद्गर्भभूतास्तपोधनाः एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् तथा न्येतापसा सिद्धा रामम् वैश्वानरोपमाः न्यायवृत्ता यथा न्यायम् तर्पयामासुरीश्वरम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे प्रथमः